मुद्गलपुराणं खण्डं 6 विकटचरितम् अध्यायम् 17 मयूरक्षेत्रमरणप्राप्तिमाहात्म्यवर्णनं श्रीगणेशाय नमः शिवाद्या ऊचुः एतादृशा महाभागा कथं गणेशंवदकारणं भृश्युण्ड्युवाच सकामा गणराजस्य भक्ता ये देवसत्तमाः अन्तरे विषयेष्वेदे संसक्ताः सम्भवन्ति च न तेषां गणराजस्य स्वानन्दे गतिरुच्यते निष्कामानां पदं तद्वै भक्तानां जन्मनाशनम् अध कैलासा सर्वे गणेशम पूज्य योगि बभूस्तम भजन अन्नचेतस तदा कैलासनाधे ते स्वानंदम दि नदेह पुनरावृत्तिवर्जि भुक् मुक्ति प्रिया प्रियाये वै कसा सम्पतन्ति चेत् ते पुनर्विघ्नराजं तं नान्य चेतसः कैलासे गणपं गत्वा भोगयुक्ता भवन्ति ये ते पुनर्मृत्युलोकेषु पतन्त्यत्र न संशयः ब्रह्मभूदा भवन्त्यन्ते स्वानन्दस्तामहेश्वराः गणेशेनैवरजितं क्रीडार्थं तत्तथा भवत अधुना क्षेत्रबाह्या वै देवभूमिः प्रकीर्तिता तस्य माहात्म्यमुख्यं यत् कथयामि समासदः दण्डकारण्यदेशस्थस्य उद्ध्र कश्चिद् बभूवः दारिद्र्यदोषसंयुक्तो बब्राम वसुधातले शुधया पीडितोऽत्यन्तं ज्वरयुक्तो बभूवः स पूर्वद्वारभाष्यायां देवभूम्यां ममारः सङ्गृह्य वैष्णवादेवा विमानेन गणानरं विकुण्ठे स्थापयामाशुशूद्रं क्षेत्रप्रभावदः समारभ्य योजनं वैष्णवं मदं तत्र सिद्धिं ययुक्के जिद्वक्तुं शक्यं न वैभवेद अन्यच्च देवदेवशाशृणुध्वं दक्षिणे भवं चरित्रं शिवभावाख्यं द्वारात् परम् ब्राह्मणस्तत्र सम्भूतो जगामवृत्तिकारणात् तस्मात् समागतः भवत्परह, श्रमयुक्तो भवत्परः ममाराह्निद्वितीये भवत माहात्म्याद् देवभूम्यास्तु शैव्याः क्षेत्रान् महेश्वराः अथ पश्चिमभागात्तु द्वारा चाक्रं मदम्बरं क्षत्रं योजनमात्रं तु तस्य वक्ष्यामि चेष्टितं चाण्डालकोऽपि देवेश विदर्भादागतो भवद कार्यार्थं ज्वरयुक्तश्च बभूवातीव पीडितः ममारपञ्चमे देवा दिवसे दैवगौरवाद शक्तिलोकं जगामासौ माहात्म्या चाक्रसम्भवाद अधोत्तरभवं चित्रं चरित्रं शृणुदप्रियाः सौरलोकप्रदं पूर्णं क्षेत्रादुत्तरभागदः भिल्लः कश्चिन्महाभागात् कदाथ दष्ट सर्पेण तमारर भाग्यगौरवाद सौरम लोकम स मुदे सोपिव मयूरक्षेत्रूतरे सौर प्रभाव अनेकनाय एवं च विशेषदः तेषां चरित्रकं कैस्तु वक्तुमत्र न शक्यते सङ्क्षेपेण फलं मयूरक्षेत्रेऽपि मरणेनाधुना लभेद तस्य माहात्म्यमुख्यं यत् कथयामि समासदः चाण्डालकोऽपि पापात्मा परस्त्री लालसो भवद आन्ध्रे वनं समाश्रित्य जघ्ने समागदान् नानापापयुधो दुष्टो वर्णनेन ना प्रक्षक्यते भावाद्वै परदोषप्रकीर्तनाद दुष्टो जगाममायूरे सुहृज्जनयुधकदा भगिनी गृहसंस्थेसा भागिनेय भागिनेयविवाहगः पापानि तस्य दुष्टस्य बहिः क्षेत्रास्थितानि च पुनः प्रतीक्षयन्ते क्रोधयुक्तानि देवपाः नर पापानि यत्र कुत्र कृतानि वै बहिरेवापि प्रवेशात् संस्थितानि तु पुनर्यदि समायादमनुतं पापपानिदु गच्छन्ति शुद्धरूपस्थं यत्र सोऽपि गमिष्यति कदाचित्तेन यदि पापं कृतं भवेद ततः प्रविश्यापि भुञ्जते तानितं नरं नरम् अधो मयूरक्षेत्रं वै न देहधारिणा पापप्रवेशहीनत्वात् सदा सेव्यं महेश्वराः यदा नरसमुद्युक्तो भवति स्वगृहात् कदा मयूरेशं गमिष्यामि यात्रार्थं नात्र संशयः तदा पापानि तस्यैव विचारं कुर्वते परम् महाभयकरो विघ्नः प्राप्तश्चास्माकमुल्बणः मयूरे यदि देहीदु गमिष्यदि गमिष्यति तदा वयं स्थास्यामः चरितुं विघ्नमुत्तमम् ततः पापानि सर्वाणि तं नरं यत्नभावदः पीडया येन येनव्यग्रो नरो भवेद् द्रव्यहानिं तथा पुत्रम् पुरं पशुगृहादिकं पापानि कुर्वदेनाश संयुक्तं देवसत्तमाः तेन सम्पीडिदो धत्ते यात्रार्थं न मनोऽपि सः अतः सर्वमनादृत्य मयूरेशं समाश्रयेत् कामं नानाविधान्येव पापानि कुरुतां सदा अन्दे मयूरकं गच्छेत् किं करिष्यन्ति तानि तं येन केन विचारेण मयूरे देवसत्तमाः वासः सदा प्रकर्तव्यो ब्रह्मभूयस्य कारणात् अन्यत्र विविधैर्युक्तो भोगैराज्यादिभिस्तथा मयूरे श्रेष्ठकष्ट तस्माद्दारिद्र्यादियुतो भवेद मयूरक्षेत्रे मरणे स्वानन्दं लभते नरः अन्यत्र भोगयुक्तश्चेजन्म मृत्युयुतो भवेद विषयासक्तचित्तश्चेन्मयूरेशं तथापि हि सामश्रिएुराचारो यादना लभसे परा अधुना शृणु प्राज्ञा अन्जस्य दुचेषिम प्रकृत कथयिष बहुना किं विचक्षण चांडालो भगिगेहे मयूरे संस्थित ममार तत्र सर्पेण स देवसत्तमाहा गणपत्याभिमानम् तु समानीय तदर्थतः सङ्गृह्य ब्रह्मभूतं तं चक्रुः क्षेत्रमृदे फलाद् मयूरेण चकारासौ चाण्डालः पापमल्पकम् तेन सद्यो बभूवैव ब्रह्मस्थो नीचयो निजः मरणे ब्रह्मभूतश्च भवत्यत्र न संशयः मयूरे किं देवाक् कथयामि चरित्रकं एवं नानाजनाद्याश्च पशुपक्ष्यादिस्सम्भवाः मयूरे ब्रह्मभूताश्च बभ्रूवुर्मरणात्पुरा अधो देवेशमुख्याश्च शृणुध्वं त्वेकचेतसः चित्रं चरित्रकं वक्ष्ये मयूरे संभवं परं वणिजो गर्दभं चैकं धृत्वा कार्यार्थमादराद भारेण संयुद चक्रुरना महेश गृह्य मयूरेश्यम सामजघ्मस्वणा गर्दभस्तर भारेण पीडितस्तु मार सब्रहणि तदा बभूवे देवसत्तमाः पशुजादि च एवं तु नराणां तत्र का कथा एवं क्षेत्रप्रभावेण जनाना महेश्वराः सिद्धिं प्राप्ता विशेषेण मया वक्तुं न शक्यते इदं इदम क्षेत्रभव चिंत्र चरिद श्रृणुया नर पठे श्राव प्रलभे सदा ओं तत्सद्रीमदांदे पुराणोपनिषद्रीमद्द्गे महापुराणे ष्ठे खंडे विकटचरि मयूरक्षेत्रमरणप्राप्तिमाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः ॐ